अथ प्रथमकाण्डे षष्ठः प्रश्नः प्रारम्भः सन्द्वासिम् च मेजषा प्रजामायुधनम् च बृहस्पतिप्रसूत यजमानयहमारिशत् सत्यमधि सत्यस्याध्यक्षमजि हविरजिवैश्वानरं वैश्वदेवमत्पोतसुष्मो दौजासहोस्वाराध्यः सहस्वाराध्यतः सहस्वृतना सहस्ववृतन्यतः ैर्यमसि सन्वा जन्वाद्यस्यात्यमसि सत्यस्य सत्यमसि धर्त्राय गृह्णामिपञ्चानां यन्त्राय धर्त्राय गृह्णा विपञ्चानां द्वादिशा यन्त्राय धर्त्राय गृह्णामिपञ्जानाम् त्वा इन्द्राय धर्त्राय गृह्णामि क्षत्रस्य को दिसे इन्द्राय धत्राय गृह्णामिषे त्वा इन्द्राय धर्त्राय गृह्णामि वीर्यायित्वा गृह्णामि सुप्रास्त्वायत्वा गृह्णामि गृह्णामि गृह्णाय त्वा गृह्णा विभोरस्माको हरिदेवानामाशुशोयमानस्य देवानान्दादेवता गृह्णाभिकामायित्वा गृह्णामि ो हनुंसजातेषु भूयासन्धीरश्चेत्तावसविचुक्रो शुक्रोह कुंसजातेषु भूयासमुक्रश्चेत्तावसृद्विघोरस्य विघोरः कुंसजातेषु भूयासश्चेत्तावसु वित्रलक्ष्मित्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः निदानास्ता सुप्रजरस्वीराज्यो द्यैव भयन्ते यद्वास्कम् दादाज्यविष्णो येन धर्मराय वैरम् ददामिसते ग्ने देवे धृन्द्रिह्वामर्चस्य देहो धर्मोराय स्पोशाय सुप्रदयास्ताय सामा भूतेनामि समाः प्रेतप्रीणात् ग्रीष्मं दूनाम् प्रीणामि प्रेणादुषनन्दशिशिरावृतोनां प्रेणामितो मा प्रीणीनामग्निशोमयो रहन्देव यज्ञया कृष्मान् भूया समग्ने रहं देव यज्ञया नादो भूया सुन्दरस्य रत्वा भूया समुन्द्रमे अग्निशोमयो रहन्देव यज्ञया रत्वा भूया समिन्द्राग्नयो रहं देव यज्ञेन्द्रियाव्यन्नादो भूया समिन्द्रस्याहन्देव यज्ञेन्द्रियावि भूया संमहेन्द्रस्याहन्देव यज्ञया जयमानं महिमानङ्गमे युष्मा यज्ञेन प्रतिष्ठानम् साध्यो मेन्द्रूरे राज्य कृतवेदेन जेष अभ्ये ये हिमान् वामनवृतान्दे श्रीयोपहोदौ पावनेय रामे सत्याशे अस्य यज्ञस्य भूयानरेण कामनसागृक्षकेयं यज्ञो देवो राजयज्ञादिवङ्गच्छति यो देवया रन्थास्तेन यज्ञो देवागुमभ्ये तस्मास्विन्दरिन्द्रिन्दुरा तस्मान्दायज्ञास्यन्दामस्मासुत्वा यज्ञो सम्बन्धधातु विश्वे देवायमालयन्ता वृद्धबन्मस्वदनुतो भेमाक्षाय कुर्वतो भेमोपदसत्प्रजापदे स्वान् वयस्वान् प्राणामानो मे बाह्यमानम् यानो मे बाह्युमानम् यानो मे बाह्यक्षितो शिते श्रेष्ठा अमुद्रा अस्मिन्लोके ेव्याः प्रजावाहान् भूया सुन्दराशंसस्याहन्देव युजया कृतोहन्देव विजयान्वयमग्ने रहमुय शृङ्गस्याहमृचिमनोद्यमग्ने रहमुज्जिमनोद्यनमग्नेशमयो रहमुज्जिमनोद्यै चन्द्राज्ञय रहमुच्चिनोद्यन्द्रस्याहमुचिमनोद्यै महेन्द्रस्याहमुयन मग्ने सृष्ट कृतोहमुनोद्य शृङ्गार्यमाप्रसवे निग्राहम् च ब्रह्मदेवाहवेसन् अथ स्वनानिन्द्राज्ञस्य श्रोतोः कामा इन्द्रवन्दो वनामे क्षेमप्रजामिषम् ेवताङ्गमयद्वर्यो देवता तस्मासु द्रविडयच्च भद्रम् प्रोदाघागदान् देवतासु कृष्णा श्रेयो रहन्देव यज्ञया यज्ञेन प्रतिष्ठाङ्गमे यको सोमस्याहन्देव यज्ञया सुरेता य रहन्देव यज्ञया पुषनागोरूपं भुषेयन् देवानामरग्निर्ग्रहवति यज्ञस्य मिथुरं दयो रहन्देव यज्ञया मिथुलेन प्रभो यासं वेदोकर्मासिकरणमसि क्रियासकौ सरिदसि चलितासि कृतवन्तङ्कुरायिनगौ लायपोषणौ सहस्रिणम् वेदोदरादवायिम् ृतदेवेभ्यः प्रजापतेर्विमान्नाम लोकस्तस्मिन् सहयजमानेन सदश भूयाः सर्वमसि सर्वमे भूयात् पूर्णमसि पूर्णमे भूयाक्षिस्वामे चेष्टा प्राच्यान् ऋषिवार्गेन्द्रां दक्षिणाय पृथिवी मनु विक्रमेण विष्णो विष्णुक्रमो त्रैष्ठवेणसान्तरिक्षमविक्रमेणभक्तायं विष्णो विष्णुक्रमो रान्तान छन्दसा भक्तस्य विष्णुवाक्रमोत्रो यतोन्तानिष्टुभेन छन्दसादिशो न विक्रमे निर्भक्तस्य मेधे महम् राज्यमाभ्यो दिभ्योस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्या निर्भया मृद्भक्तः विष्मः षा भोपमेन्द्रियमारुतन्ते समहम् प्रजया समयो राजस्पोषेण राजस्पोषे स्वमे वर्षस्वैर्यम् मयि गृहतिया गृहपतिना भूया स गोसु गृहपतिमया त्वन्द्रावना भूयाश्चतौ हिमास्तामासिमाशा सैकन्दमे ज्योतिष्पदन्मै ज्योतिष्पदीकृ सत्त्वाभिज्ञापभूपस आपभूवस प्रयज्ञे सुवामृधे सेवानामधिपदूवसो अस्माकमधिपदे ज्ञाभिमागो अश्मे यज्ञानुवत्सखासदमिदप्रमुष्यः प्रजावानन्दस्वभावान यज्ञमागच्छन्ति स्वदेवायतने देवता परिगृह्णादिताश्व भोगे जते ्रतपदेतञ्जलिष्यामेत्यग्निर्वै देवानां प्रति परिषा पूर्णमासे वैदवत्सैरमाग्नपदश्चेत्यावाणे देवता वसन्ते एवं विद्वानग्नस्त्रणादिन ग्राम्याश्च वशवा वरुद्ध्या आरण्या यद्वाम्यानुप्यानुवृन्धेदारण्यस्याेदनाश्वानुभवसे क्षुत्रस्यास्यैव त्रोहे क्षत्रे मनुष्यदुर्भ्याश्वानुपवसते साक्षात् वै श्रद्धामनार्भ्येन श्रेष्ठाय श्रद्धतेव प्रणयति श्रद्धा वाश्रद्धामेवार्भ्येन श्रद्धावृति वा एतावृति वा प्रणय देयं वैमनानयैवेणयत्यस्कन्नहविर्भरति एवं वेद यज्ञा इदानि सम्भरति यज्ञावयज्ञा इदानि यज्ञमेतत्सम्भरतिभरे ेवलोकं करोकल्पेभ्यश्चार्ण्यः रावणे दशोत्पञ्च कृष्णाजलशम्याचोलोकरञ्जमुता न वेदशे ज्ञायुधानियदेवं वेदमुखतोऽस्य यज्ञकल्पदे यो वै देवेभ्यः प्रोत्सेन देवाहव्यं नृप्यमाणमभिमये देवेभ्यः ेव प्रति यज्ञानयते दुषन्ते यस्य देवा हव्यमेष वै यज्ञस्य गृहो गृहीत्यैव यज्ञेन वाचम् यच्छति यज्ञस्य धृत्याय सोमनसा वै प्रजापतरि यज्ञवतमनसैवज्ञसामनप्रचारा ह्यो वै यज्ञयौ गुनत्ययुङ्ानेषु कस्वायुनक्त्यसत्त्वा युव्या प्रजापतिवैकप्रजापतिरिवैनक्ति युङ्ु यावदीयज्ञानराग्निहोत्रं चिष्टपञ्च पौर्णमासे चोक्षञ्जामाभाष्याञ्च रात्रं शतावृतमे दयावदग्निहोत्रमासे तावमो यावदेवोर्णमासे तावाक्षावत्य माभास्य ताव रात्रयमृताग्निहोत्रं चो धयावत्पे नो पाप्नो ददावदुपात्मोधेमृत्तात्मोर्णमासीदयावदृक्षय पाप्त्मो ददावदुपात्मोधेयं वृत्तान्माभास्याय ेण <Sessimus> प्राप्नो द्वादशसंवत्सरो द्वादशद्वादशपूर्णमासयोस्थानि सम्पाद्यामेश्रये चिधिश्रयचाद्यस्तम्भैश्चार्यभिजवर्णादिवेक्षणैश्च प्रजातेनैव यज्ञान jayenge ौ राजेषु भूया दृत्या राजेषु एव ब्रह्मेन देवासु स्वर्णं लोकवान् रामपराभाव ्यावृतयो ब्रह्म गुरुते ब्रह्मणैव मासोजाद्रं मास्यान्लभमान एताभ्रव्याहृतेज्ञं वैकर्षपूर्णमासो जाद्रं हास्यानि ब्रह्महेताव्यावृतयोमुख एव ब्रह्म गुरुदे वत्सरे बर्यागत ब्रह्मणैव वैदस्संवत्सरं राष्ट्रयज्ञस्याशीर्दश्चेण यज्ञेनैव प्रतिपदं कृते ब्राह्मणस्याेन कामयेशीर्दीताव्याहु प्रौढवाक्या यदेव अत्यावे पुराणोवाख्या अप्राकृत्यवेभासरेक्तस्य आशेरग्च्छदयान कामयते इदमानान् समावृत्यनार यज्ञस्य आशेरग्छेदिति देशामेतां यावदे पुराणोवाख्यायाः अत्ततेदाहन्दध्यात्याज्ञाये प्रस्तादेका अन्यज्ञात्यायार्थत्तये कान्तलीनान् समावदि यस्य आशेरग्च्छदयानं वे मध्यं स्वृष्टं वर्ढत्येवं यज्ञैरानायावर्षनिस्खलयोगकं परगुणमन्ता अविशायक्निगला रपरिवृन्दा मनसिप्रायाम् मनसा मा भोतेना विषयत्या प्राम् प्राजा वृक्षोत्मन्धत्ते वाक्षिणे वाचा मेन्द्रियेणाविषयत्या इचमेवैन्द्रियमात्मन्धत्ते ये सप्तदशं प्रजापति यज्ञमन्वायुतं वेदप्रति यज्ञानतिष्ठतल यज्ञार्प्रकोषदाश्वायेश्रोषि चतुर्क्षरङ्गेक्षरङ्गेदकाल एष वै सप्तदशप्रजापदज्ञमन्वायुत्तय एवं वेदप्रति यज्ञानतिष्ठतल यज्ञार्प्रकोशदेयो वै यज्ञस्य प्रायणं प्रतिष्ठा उदयनं वेदप्रतिष्ठतेनानिष्ठेन यज्ञेनश्रोषड्य प्रायणमेषाप्रतिष्ठै एवं वेदप्रतिष्ठितेनारिष्टेन यज्ञेन सङ्कृष्टाङ्गताश्रावये वै सुन्द्रमासे शान्तिशो दस्यन्तर्तां पन्तिम पश्यन्नाश्रावये पुनो स्तुश्रो षडि ेदप्रास्मै दिन्द वेद प्रजापदस्त्वं वेदयं प्रजापदर्वेदपुण्या भवत्ये छन्दस्य प्रजापधराश्रामेवण्या भवति वसन्तर्त भवेदार्थे कल्पन्देस्मा ृत्या हानिभूयाश्रित्यानां धत्तेभूया सुन्दवे देत्या हृदया वेदं वान्त भ्रातृन्द्रग्निशोमयो हन्दे वैद्या कृत्वाभ्यां वा ृव्याहेन्द्रेन्द्रन्देव युज्या जयमानम् महिमानङ्गमे यमित्याः जयमानमेव महिमानम् देवैद्ययायुष्मान्ष्ठाङ्गमे यमित्यावान्धते प्रतिज्ञानतिष्ठति इन्द्रम् वो विश्वस्परिहवास्माकमस्तु केवलः वृषा दाशिवसश्चेदिनेषु पञ्चषु इन्द्रदायदाय महेन्द्रियाय सत्रा देविश्व प्रहत्ये नक्षत्रमनुसोय नेन्द्रदेवेभिरृतेषत्ये ृहेभिरक्षिणः तृणार्चक्रमर्किणः ब्रह्माणस्तासु लट्रलौत्र यान्तः ष्टात्मापरस्याः युशत्रो नृधास्य हनोर्जामिन्द्रभामितो वृत्तस्याभिदासः र्कैरवो <Sessing and singing> <Sessing and singing> <Sessing and singing> ण्डे षष्ठः प्रश्नः समाप्तः